पद्यो हि गर्भान् द्राक्षस्यो लभन्ते प्रसवन्ति च कामरूपधराश्चैव भवन्ति बहुरूपिकाः प्रणम्यविकचः पादावगृह्णात् स पितुस्तदा मातुश्च परमेश्वासः तौ च नामस्य चक्रतुः घटो हास्योत्कच इति माता तं प्रत्यभाषत अब्रवीतेन नामास्य घटोत्कच इति स्म अनुरक्तश्च तानासीत् पाण्डवांस घटोत्कचः तेषां च दयितो नित्यम् आत्मनित्यो बभूवः संवाससमयो जीर्ण इत्याभाष्यततस्तु तान् हिडिम्बासमयं कृत्वा स्वाङ्गतिं प्रत्यपद्यत घटोत्कचो महाकायः पाण्डवान् प्रथया सः अभिवाद्य यथा न्यायम् अब्रवीच्च प्रभाष्यतान् किं करोम्यहमार्याणाम् निःशङ्कम् वदता नघाः तम् ब्रुवन्तम् भैमसेनिम् कुन्ती वचनमब्रवीत् त्वम् कुरूणाम् कुले जातः साक्षाद् भीमसमोह्यसि ज्येष्ठः पुत्रोऽसि पञ्चानाम् साहाय्यम् कुरु वैशंपायन उवाच प्रथयाप्येव मुक्तस्तु प्रणम्यैव वचोऽब्रवीत् यथा हि रावणो लोके इन्द्रजिच्च महाभवं नृषु कृत्यकाल उपस्थास्ये पित्रो नितिघटोत्कचः आमन्त्र्यरक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् स हि सृष्टो मघवता शक्तिहेतोर्महात्मना कर्णस्य प्रतिवीर्यस्य प्रतियोद्धा महारथः इति श्रीमहाभारते आदिपर्वणि हिडिम्बवधपर्वणि घटोत्कचोत्पत्तौ चतुष्पञ्चाशदधिकशततमोऽध्यायः